श्वेशं माधवं धुंधिं दण्डपाणिं च भैरवम् वन्दे काशीं गुहां गङ्गा भवानीं मणिकर्णिका उत्तिष्ठ काशी भगवान् प्रभुविश्वनाथो गङ्गोर्मिसङ्गतिशुभैः परिभूषितो व्यैः श्रीढुण्ठिभैरवमुखैः सहिता नपूर्णा माता च वाञ्छति मुदा तव सुप्रभातं ब्रह्मा मुरारी त्रिपुरान्तकारिः भानुष्यशीभूमिसुतो बुधश्च गुरुश्च शुक्रश्च निराहुकेतवः कुर्वन्तु सर्वे भुवि सुप्रभातम् वाराणसी स्थितगजाननढुन्धिराज तापत्रयापहरणे प्रथितप्रभाव आनन्दकन्दलकुलप्रसवैकभूमे नित्यं समस्तजगतः कुरु सुप्रभातुम् ब्रह्मद्रवोपमितगाङ्गपयः प्रवाहै परिसेव्यमाने श्रीकाशिके कुरु सदा भुवि सुप्रभातम् पत्रैरसङ्ख्यमठमन्दिरतीर्थकुण्ड प्रासादघट्टनिवहैर्विदुषा वरैश्च आवर्जयस्य अखिलविश्वमनांसि नित्यम् श्रीकाशिके कुरु सदा भुवि सुप्रभातम् नुसुधियः कुधियो धियो वाञ्छन्ति नान्तसमये शरणम् भवत्याः हे कोटिकोटिजनमुक्तिविधानदक्षे श्रीकाशिके कुरु सदा भुवि सुप्रभातम् या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगैः नागैर्भूर्तलवासिभिर्द्विजवरैः संसेविता सिद्धये या गङ्गोत्तरवाहिनीर्परिसरे तीर्थैरसङ्ख्यैर्वृता सा काशी राजनगरी देया सदा मङ्गलू तीर्थानां प्रबरा मनोरथकरी संसार पारा परा नन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषै या शम्भोर्मणिकुण्डलैककर्णिका विष्णुस्तपो दीर्घिका सेयं श्रीमणिकर्णिका भगवती देया सदा मङ्गलम् पादपद्मस्य सवल्लीपादपद्मस्य विष्णो मदनमथनमौळेर्मालती पुष्पमाला जयति जय पताकाभ्यसौ मोक्षलक्ष्म्या क्षपितकलिकलङ्का जाह्घवीरः पुनातु गाङ्गम्भरि मनोभारि मुरारि चरणच्युतं त्रिपुरारि शिरश्चारि पापहारि पुनातु विघ्रावासनिवासकारणमहागण्डस्थलालम्बितः सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिना गच्छभिः श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दमानन्दितः स्मेरास्यस्तवढुण्ढिराजमुदितो देया सदा मङ्गलम् कण्ठे यस्य लसत्कराळगरलं मस्तके वामागे गिरिराजराजतनया जाया भवानी सति श्री विश्वनाथ प्रभु। काशी नन्दीस्कन्दगणाधिराजसहित खिल गुरुर्देया सदा मङ्गलम् देयासदा मङ्गलम् श्रीविश्वनाथ करुणामृतपूर्णसिन्धो शीतांशुखण्डसमलङ्कृतभौयचूड उत्तिष्ठ विश्वजनमङ्गलसाधनाय नित्यं समस्त जगत् कुरु सुप्रभातम् श्रीविश्वनाथवृषभध्वज विश्ववङ्ग्य सृष्टिस्थितिप्रलयकारक देवदेव वाचामगोचर महर्षिनुताङ्घ्रि पद्म वाराणसी पुरपते पुरु सुप्रभातम् श्रीविश्वनाथ भवभञ्जनदिव्यभाव गङ्गाधर प्रमथ वन्दित सुन्दरङ्ग नागेन्द्रहारनत भक्तभयापहार णसी पुरपते कुरु सुप्रभातम् श्रीविश्वनाथ तव पादयुगं नमामि नित्यं तवैव शिवनामहृदा स्मरामि वाचं तवैव यशसानघभूषयामि काशीनिवासि मुनिसेवितपारपद्म गङ्गाजलौघपरिषिक्तजटाकलापहस्याखिलस्य जगतः स चराचरस्य वाराणसी पुरपते कुरु सुप्रभातम् गङ्गाधराद्रितनया प्रियशान्तमूर्ते वेदांत वेदान्तवेद्य सकलेश्वर विश्वमूर्ते कूटस्थनित्यनिखिलागमगीतकीर्ते वाराणसी पुरपते कुरु सुप्रभातम् विश्वं समस्तमिदमद्यघनान्धकारे मोहात्मके निपतितं जडतामुपेतम् भासा विभाष्य परया तदमोघशक्ते वाराणसी पुरपते कुरु सुप्रभातम् सूनुः समस्तजन विघ्नविनाश दक्षो भार्यं न दाननिरताविरतं जनेभ्यः ख्यातः स्वयं च शिवकृत् सकलातिभाजाम् ये नो नमन्ति न जपन्ति न चामनन्ति नो वा लपन्ति विलपन्ति निवेदयन्ति तेषामबोधशिशुतुल्यधियां नराणां वाराणसी पुरपते कुरु सुप्रभातम् श्रीकण्ठ कण्ठ धृतपन्नगनीलकण्ठ सोत्कण्ठ भक्तनिवहोपहितोपकण्ठ भस्माङ्गराग परिशोभित सर्वदेह वाराणसी पुरपते कुरु सुप्रभातु श्री पार्वती हृदय वल्लभ पञ्चवक्त्र श्रीनीलकण्ठनृगपाल कलापमाल श्रीविश्वनाथमृदु पङ्कज मञ्जुपाद पाराणसीपुरपते कुरु सुप्रभातुम् दुग्धप्रवाह नित्यं तपस्वि जन सेविधपादपे गङ्गे गङ्गे शरण्य शिवले कुरु सुप्रभातम् सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हत पापवृन्दं वाराणसीनाथम् अनाथनाथं श्री श्रीविश्वनाथं शरणं प्रपद्ये श्रीविश्वनाथं शरणं प्रपद्ये श्री